न क्रामन्त यदा शापा बाणामुक्ता शिलास्वि वा नियमान् सम्परित्यज्य व्यद्रवन्तद्विजातयः पृथिव्यां ये तपःसिद्धा दान्ताश्रमपरायणाः तयोर्भयाद् दुद्रुगुस्ते वैनतेयादिवोरगाः मथितैराश्रमैर्भग्नैर्विकीर्णकलश्रुवैः शून्यमासीत् जगत् सर्वं कालेनेव ततो राजन्न दृश्यद्भिर्ृषिभिश्च महासुरौ उभौ विनिश्चयम् कृत्वा विकुर्वातेवधैषिणौ प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ संलीनमपि दुर्गेषु निन्यतुर्यमसादनम् सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हिताबुभौ तैस्तैरुपायैस्तौ क्रूरा वृषीम् दृष्ट्वा निजघ्नतुः निवृत्तयज्ञस्वाध्याया प्रणष्ट नृपतिद्विजा उत्सन्नोत्सवधा तदा हार्ता च निवृत्तविपणापणा निवृत्तोद्वाहविवर्जिता निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा अस्थिकं कालसङ्कीर्णभूवोऽग्रदर्शन निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् जगत्प्रतिभयाकारेक्ष्यमभवत्तदा चन्द्रादित्यौ ग्रहस्तार नक्षत्राणि दिवौकसः जग्मुर्विषादम् तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः एवं सर्वादिशो दैत्यौ जित्वा क्रूरेण कर्म निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि सुन्दोपसुन्दोपाख्याने नवाधिकद्विशततमोऽध्यायः